इवत्येरावद् दशकम् अमृतमदनम् दुर्वास सुरवनिताप्तदिव्यमाल्यम् चक्राय स्वयमुपदाय तत्र भूय नागेन्द्र प्रतिमृतिते च चाबचक्रम् काशान्ते त्वदिदरविदेवताम् सजानाम् चापेन प्रतित जरेत निर्झरेन्द्रे देवेष्वप्य सुरजितेषु निष्प्रभेषु सर्वाद्या कमलजमेत्य सर्वदेव निर्वाण प्रभवसमम् भवन्तमापो ब्रह्मात्ये स्तुतमहिमाचिरम् तदानीम् प्रादुष्यन् वरदपुरपरेण धाम्ना हे देवा दिदिजकुलैर्विधाय सन्धिम् पीयूषम् परिमततेति पर्यस्त्वम् सन्दानम् कृतवति धानैवै स्वरोगे मन्दानम् नयदिमदेन मन्दरात्रिम् भ्रष्टेऽस्मिन् वदरमिवोद्वहन् गगेन्द्रे सत्यस्त्वम् विनिहितवान् पयपयाधौ आदाय धृतमतवासु किंवरत्रा पाधोधौ विनिखित सर्वबीजाले प्रारब्धे मतनविधौ सुरासुरैस्तैर् व्याधा त्वम् भुजकमुखे करो सुरारीन् क्षुब्धात्रौ क्षुपितजलोधरे तदानीम् दुग्धाब्धौ गुरुतरभारतो निमग्ने देवेषु व्यदितमेषु तत्प्रियैक्षे प्राणैक्षे कमटतनुम् कठोरभृष्ठाम् वज्रादे स्थिरतर्कर्परेण विष्णो विस्तारात् परिगतलक्षयोजनेन अम्बोधे कुहरगतेन वर्ष्मणा त्वम् निर्मग्नम् शिदितरनादमुन्निनेत उन्मग्ने झटिति तथा धारधरेन्द्रे सम्मदेन सर्वे आविश्य द्वितयगणेऽपि सर्पराजे वैवश्यम् परिचमयन् अवीवृतस्तान् उद्धाम भ्रमणजवोन्नमद्गिरीन्द्र न्यस्तैक स्थिरधरहस्तपङ्गजम् त्वा अभ्रान्ते विधिगिरिशातयप्रमोदात् उद्भ्रान्त नुनु उरुपातपुष्पवर्षा दैत्यौघे भुजगमुकानिलेन तप्ते ैव द्रुतचकुलेऽपि किञ्जिदार्ते कारुण्यात् तव किल प्रावर्षन प्रावर्षन् अमरगणान्नदैत्यसङ्घान् उद्भ्राम्य बहुतिमिनक्रचक्रवाले तत्राब्धौ चिरमतिचेऽपि निर्विकारे एकस्त्वम् करयुगकृष्टसर्पराज सम्राजन् पवनपुरेश पाहिरोगात् श्रीहरये नमः